नारदपुराणं पूर्वार्थम् अध्यायं फोर्टि सेवन् सनन्दन उवाच एतदध्यात्ममानाढ्यं वज केचिध्वजस्य सः काण्डिक्यो मृदवच्छ्रुत्वा पुनराहतमीजयन् काण्डिक्य उवाच योगं योगविदुत्तमविज्ञादयोगशास्त्रार्थस्त्वमस्यां निमिसन्ततौ केचिद्वज उवाच योगस्वरूपं काण्डिक्य श्रूयतां गदतो मम यत्र स्थितो नच्यवदे प्राप्य ब्रह्मलयं मुनिः मन एव मनुष्याणां कारणं बन्धमोक्षयोः बन्धस्य निर्विषयं तथा विषयेभ्यः समाहृत्य विज्ञानात्मा बुधो मनः हिन्दयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरं आत्मभावं नयेत्तेन तत् ब्रह्माध्यापनं मनः विकार्यमात्मनशक्रिया लोहमाकर्षको यथा आत्मप्रयत्नसापेक्षाविशिष्टा या मनोगतिः तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणं यस्य योगस वै मुमुक्षुरमिधीयते योगयुप्रथमं योगी युञ्जमानोऽभिधीयते विनिष्पन्नसमाधिस्तु परब्रह्मोपलब्धिमान् यद्यन्तराय दोषेण दूष्यते नाश्यमानसं जन्मान्तरैरभ्यसनान्मुक्तिपूर्वस्य जायते विनिष्पन्न विनिष्पन्नसमाधिस्तु मुक्तिस्तत्रैव जन्मनि प्राप्नोति योगी योगाग्निदग्धकर्मचयोचिराद चिराद। च सत्यास्ते या परिग्रहान् सेवेदयोगी निष्कामो योगिदां स्वमनो नयन् स्वाध्यायशौचसन्तोषतपांसि नियमानियमान् कुर्वेदब्रह्मणि तथा परस्मिन्प्रवणम् मनः येदे ते यमाश्च नियमाः पञ्चपञ्चप्रकीर्तिताः विशिष्टफलदाकाम्या निष्कामानं विमुख्रिताः येवं भद्रासनादीनां समास्थाय गुणैर्युदः यमाख्यैर्नियमाख्यैश्च युञ्जीद नियतो यदिः प्राणाख्यमव लम्भस्तमभ्यासात् कुरुते दु यद प्राणायामः स विज्ञेयः सबीजो बीज एव परस्परेणाभिभवं प्राणपानौ यदा निलौ कुरु द सद्विधानेन तृतीय संयमा तयोः तस्य चालम्बनवस्थूलं रूपं द्विषत्पदे आलम्बनमनन्तस्य योगिनोऽभ्यस्तस्मृतम् शब्दादिष्वनुरक्तानि निघृक्ष्याक्षाणि योगविद कुर्याचित्तानुपरिणि प्रत्याहारपरायणः पश्यता परमादेन जायते निश्चलात्मनाम् न योगी योगसाधकः प्राणायामेन पवनैप्रत्याहारेण चेन्द्रियैः वश्यीकृतैस्तदकुर्या स्थिरं चेदः शुभाश्रये काण्डिक्य उवाच कथ्यतां मे महाभाग चेदसो यः शुभाश्रयः यदा धारमशेषं तु हन्दिदोषसमुद्भवम् केषिध्वज उवाच आश्रयश्चेदसो ज्ञानिन्द्विधा तच्चस्वरूपदः रूपं मूर्तममूर्तं च परं चापरमेव त्रिविधा भावनारूपं विश्वमेधत्रिधोच्यते ब्रह्माख्यकर्मसञ्ज्ञा च तथा चो भयात्का कर्म भात्काेका ब्रह्म भात् परा उत्मका तथैवान्याध भावना सनकाद्या सदा ज्ञा ब्रह्म भावया युदा कर्म भावनया चे दवाद्यास्ता वरा हिरण्यगर्भादिषु च ब्रह्म कर्मात्मिका द्विधा अधिकारबोधयुक्तेषु विद्यते भावभावना अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु विश्वमेतत् परं चान्यभेदभिन्नदृश्यां नृप प्रत्यस्तमिद भेदं यत् सत्तामात्रमगोचरं वचः समात्मा सन्तोद्यं तज्ज्ञानं ब्रह्मसंज्ञं तच्च विष्णोः परं रूपमरूपस्याजनस्य च विश्वस्वरूपवैरूप्यलक्षणं परमात्मनः न तद्योगयुजाशक्यं नृपचिन्तयितुं यतः हरेरूपं चिन्त्यं यत् चक्षुगोचरम् हिरण्यगर्भो भगवान्वासवोधप्रजापतिः मरुदो वसवो रुद्रा भास्करा तरकाग्रहः गन्धार्वा यक्षदैत्याश्च सकला देवयोनयः मनुष्या पशवशैला समुद्राः सरितो द्रुमाः भूप भूदान्यशेषाणि भूतानां ये च हेतवः प्रधानादिविशेषान्दाश्चेदनाच्छेदनात्मकम् एकपादं द्विपादं च बहुपादमपादकं मूर्तमे दद्धरि रूपं भावनातृतयात्मकम् यत् सर्वमिदं विश्वं जगदेदच्चराचरं परब्रह्मस्वरूपस्य विष्णोशक्तिसमन्वितं विष्णुशक्तिपर प्रोक्ता क्षेत्रज्ञाख्या तथा परा अविद्या कर्म संज्ञान्या तृतीया शक्तिरिष्यदे ये येयं क्षेत्रज्ञशक्तिः सा चेष्ठिता असारभूते संसारे प्रोक्ता तत्र महामते संसारतापानखिला नवाप्नोत्यनुसंज्ञितान् तया तिरोकितत्वात् शक्तिः क्षेत्रज्ञसंज्ञिता सर्वभूतेषु भूपालतारतम्येन लक्ष्यते अप्राणवत्सु खल्वल्पास्तावरेषु ततोऽधिका सरीसृपेषु तेभ्योऽन्याप्यतिशक्रिया पदत्रिशु। पदत्रिभ्यो मृगास्तेभ्य स्वशक्रिया पशवोऽधिकाः पशुभ्यो मनुजाश्चादिशक्त्या पुंसप्रभाविताः तेभ्योऽपि नागन्धर्वयक्षाद्याः देवता नृप शक्रः समस्तदेवेभ्यस्ततश्चादिप्रजापतिः किरण्यगर्भों ततः येदान्य येशेष तर पाथिव यत तछक्तिगे नुक्ता नभसा यहाय विष्णु संस्थ योगी ध्येय महामते अमूर्त ब्रह्मणो रूपम युच्य दुधताशक्त नृपयत्र प्रतिष्ठिताः न हि स्वरूपं वैरूपमन्यधरेर्महद समस्तशक्तिरूपाणि तत्करोधि जनेश्वर मनुष्यादि चेष्टा वन्दिवलीलया जकदामुपकाराय तस्य कर्मनिमित्तजा चेष्टा तस्य प्रमेयस्य व्यापिन्यविहितात्मिका तद्रूपं विश्वरूपस्य चिन्त्यं योगयुजानृप तस्य ख्यात्मविशुद्ध्यर्थं नाशनम् यथाग्निरुद्धदशिखः कक्षं दह तथा चित्तस्थितो विष्णो योगिनां कस्मात् समस्तशक्तीनामाद्यान्ते तत्र चेतसः कुर्वेदसंस्थितं साधुविज्ञेया शुद्धलक्षणा शुभाश्रयसचित्तस्य सर्वगस्य तथात्मनः त्रिभावनादिदो मोक्तये योगिना नृप अन्येदु पुरुषव्याक्रचेदसो ये व्यपाश्रयाः अशुद्धास्ते समस्तास्तु देवाध्याकर्मयोनयः मूर्तं भगवतोरूपं सर्वापाश्रयनिःस्पृहः एषा वै धारणात्म या यच्चित्तं तत्र धार्यते तत्र मूर्तं हरेरूपं यादृक्चिन्त्यं नराधिप तच्छ्रूयदा मनाधारे धारणानोपपद्यते प्रसन्नचारुवदनं पद्मपत्रायते क्षणं सुकपोलं सुविस्तीर्णं ललाडफलकोज्ज्वलं समकर्णां सविन्यस्तचारुकर्णोपभूषणं कम्बुग्रीवं सुविस्तीर्णश्रीवत्साङ्गितवक्षसं बलित्रिभङ्गिना भुघ्ननाभिना चोदरेण वै प्रलम्बाष्टभुजं विष्णुमथवापि मधवापि चतुर्भुजम् समस्ति दोरुजखनं सुस्थिराङ्घ्रि कराम्भुजं चिन्तयेद्ब्रह्मभूतं तं पेदनर्मलवाससं किरीडचारुकेयूरकटकादिविभूषितं सार्ग शङ्खगदा खड्गप्रकाशवलयाञ्चितं चिन्तयेत्तन्मयो योगी समाधायात्ममानसं तावद्या वदृढीभूता तत्रैव नृपधारणा वततस्तिष्ठतो यद्वा स्वेच्छया कर्म कुर्वतः नापयादि यदा चित्तात्सिद्धा मन्ये ददां तदा तदः शङ्खगदाचक्रशार्कादिरहितं बुधः चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकं सा यदाधारणा तद्वदवस्थानवदी तदः किरीटकेयूरमुखैर्भूषणैरहितं स्मरेद तदेकावयवं चैवं चेदस्सा हि पुनर्बुधः कुर्यात्तदो वयविनिप्रणिधानपरो भवेद तद्रूपप्रत्यये चैक संनधिश्चान्य निःस्पृहा तध्यनां प्रथमैरङ्गैषड्भिर्निष्पाद्यते नृप तस्यैवं कल्पनाहीनं स्वरूपग्रहणं हीयत मनःसाध्याननिष्पाद्यं समाधिसोऽभिधीयते विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव पणीयस्तैवाीणाशेष क्षेत्री ज्ञान कस्य निष्पाद मुक्ति कार्यम वैतकृत निवर्त तद्भावनापन्न सौ पर भेदीभेदे विभेदजनके ज्ञाने नाश्यमात्यन्तिकं गदे आत्मनो ब्रह्मणभेदं सं मदं कः करिष्यति युत्युक्तस्ते मया योगकाण्डिक्यपरिपृच्छतः सङ्क्षेपविस्तराभ्यां तु किमन्यत् क्रियतां तव काण्डिक्य उवाच कथितो का योगसद्भाव सर्वमेव घृतं मम तवोपदेशात्सकलो नष्टचित्तमलो मम ममेदीयन्मया प्रोक्तमस्सदे तन्न चान्यथा नरेन्द्रगदितुं शक्यमपि विज्ञेयवेदिभिः अहं ममेत्य विद्येयं व्यवहारस्तथानयोः परमार्थस्त्वसंलाभ्यो वचस्सां नयः तद्गच्छश्रेयसे सर्वं मम इदद्भवदा कृतं यद्विमुक्तिपरो योगप्रोक्तः केचिद्ध्वजाव्ययः स नन्दन उवाच यथार्कपूजया तेन काण्डिक्येन स पूजितः आजगामपुरं ब्रह्मंस्तद केचिद्ध्वजो नृपः काण्डिक्योऽपि सुधं कृत्वा राजानं योगसिद्धये विशालामगमत्कृष्णे समावेशितमानसः स तत्रैतान्तिको भूत्वा यमादिगुणसंयुतः विष्णुवाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयं केषिद्ध्वजोऽमुक्त्यार्धं स्वकर्मक्षवणोन्मुखः बुभुजे विषयान् कर्म चक्रे चानभिसन्धितम् सकल्याणोपभोगैश्चक्षीण पा पापो मलस्ततः अवापसिद्धिमत्यन्तत्रिता पक्षपणीं मुने ये सर्वं यन्माम्त्वं त्वं परिपृष्टवान् तापत्रयचिकित्सार्थं किमन्यत् कथयामि ते इति पूर्वभागे द्वितीयपादे सप्तचत्वारिंशत्तमोऽध्यायः ओम्